मुञ्जामि त्वाह विशा जीवनायकमज्ञातयक्ष्मादुतरायक्ष्माल् ग्राहिर्जग्राह यदि॒ वै तदेनं तस्या इन्द्राग्निप्रमुक्तमेनम् मुञ्जामि स्वाहविषा जीवनायकमज्ञातयक्ष्मादुतरायक्ष्माल् ग्राहिर्जग्राह यदि वै ददेनं तस्या इन्द्राग्निप्रमुक्तमेनम् मुञ्जामि त्वाह षा जीवनायकमज्ञातयक्ष्मादुतरायक्ष्माल् ग्राहिर्जग्राह यदि वै तदेनं तस्या इन्द्राग्निप्रमुक्तमेनम्